श्रीमद्भागवत् महापुराणं दशमस्कन्ध अथाष्टादशोऽध्यायः प्रलम्बासुरुका उद्धार श्रीशोकुवाच अथ कृष्णपरिवृतो ज्ञातिभिर्मुदितात्मभि अनुगीयमानो निमसन्द्रजं गोकुलमन्दितं व्रजे विक्रीडितोरेवं गोपालक्षद्ममाययाम् कृष्णो नामर्तुर्भवन्नातिप्रेया शरीरिणां स सच वृन्दावनगुणैर्वसन्त इव लक्षितः यत्रास्ते भगवान् साक्षात् रामेण स्वन केशवः यत्र निर्झरनिर्हादनिवृत्तस्वनझिल्लिकं शश्वत्तथीकरजीसद्रुमण्डलमण्डितम् सरिसरप्रस्रवणोर्मिवायुनां कह्हारकं जोत्पलरेणुहारिणां न विद्यते यत्र वनौकसां दवो निदाघवह्नर्यकल्कभवोतिषाद्वले अगाधतोजं यद्धृदिनीतटोर्मिभिः ध्रवत्पुरे श्यापुलिनै समन्ततः न यत्र चण्डां शुकरा विशोल्बणा भोरसंसारितं च गृह्णते वनं कुसुमितं श्रीमद्दं चित्रमृगद्विजं गायन्मयूरभ्रमरं कूजत्कोकिलं सारसं क्रीडिष्यमाणस्तत्कृष्णो भगवान् बलसंयुतः वेणुं विर्णयन् गोपैर्गोधनैस्मृतो विशत् प्रवालबर्हस्तवकश्रग्धातु कृतभूषणाः रामकृष्णादयो गोपानतुर्युधूर्जुगुः कृष्णस्य नित्यतः केचिज्जगु केचिदवादयन् वेणुपालीतलैः शृङ्गैः प्रशंसंसो रथा परे गोपजाति प्रतिक्षन्नौ ईटिरे कृष्णरामौ च नटायुनटं नृप ब्राह्मणैर्लङ्घनैः क्षेपैः आस्फोटनविकर्षणैश्चिक्रीडतुर्निरुद्धेन काकपक्षधरौ क्वचित् क्वचिन्नित्यसु चान्येषु गायकौ वादकौ स्वयं सशंसतुर्महाराज साधसाद्भितिवाधिनौ क्वचिद्विल् क्वचिद्बिल्वै क्वचिद् मुकुम्भैः क्वचामलकमुष्टिभिः आपृश्यन्नेत्रबन्धाद्यै क्वचिन्मृगखगेहयां क्वचिच्च दुर्दरप्लावैर्विविधैरूपहासकैः कदाचिस्पन्दलोकियां करिह चिन्नृपचेष्टया एवं तौ लोकसिद्धाभिः क्रीडाभिश्चैरूर्वणैः नद्यद्रितोकुञ्जेषु काननेषु सरस्सु च पशार्यतो गोपैतद्वने रामकृष्णयो गोपरूपी प्रलम्बो गान् असुरस्तञ्जिषया तं भगवान् सर्वदर्शनः अन्वमोदत्तस्सख्यं वधं तस्य विचिन्तयन् तत्रोपाहूय गोपालान् कृष्णप्राहविहारवि हे गोपाविहृश्यामो नन्दीभूय यथायथं तत्र चक्रोपरिवृढौ गोपा रामजनार्जनौ कृष्णसङ्घट्टिन केचिदासनरामस्य चापरे आचेरुर्विविधा क्रीडा वाह्यवाहकलक्षणाः धद्रारोहन्ति जेतारोहन्ति च पराजिताः वहन्तो बाह्यमानाश्च चार्यन्तस्य गोधनं भाण्डरीकं नाम वटं जग्मो कृष्णपुरोगमाः रामसङ्घटिनो यर्हि श्रीरामवृषभादय क्रीडायां जैनस्तास्तानुः कृष्णादयो निप वाह कृष्णो भगवान् श्रीदामानं पराजितः वृषभं भद्रसेनस्तु प्रलम्बो रोहिणीसुतम् अविषय्यं मन्यमानकृष्णं दानवपुङ्गवः वहन् द्रुततरं प्रागाद् अवरोहणतः परम् समुद्वहन्धरणीधरेन्द्रगौरवं महासुरो विगतरयो निजं वपुः त आसित पुरटपरिच्छदो भवनोड्डुपन्ती वाडिवाम्बुदा नृक्षतद्व पुरळम्बरे चरत् प्रदीप्तदेभ्रुगुटीतटोघ्रतष्टकम् उज्ज्वल्लक्षिकं कटकके किरीटकुण्डलत्विसाद्भुतं हलधरै सदत्र अथागतस्मृतेरभयोरिपुंबलो विहाय सार्थमिव हरन्तमात्मनः वृषाहनस्थिरसीदृढेन मुष्टिना सुरादिपो गिरिमिव बज्ररंहसां च आहत समति विशेणमस्तको मुखाद्मन्रुधिरमप स्मृतो सुरा भारवं व्यसुरपततसमीरयन् गिरिर्यथा भगवतम् आयुधा हतः दृष्ट्वा प्रलम्बं निहितं बलेन बलसालिना गोपासु विस्मिता आसं साधुसाध्वीतिवादिनः आशिषोभिर्ग्नन्तस्तं प्रशसंसो च दर्हणं प्रीत्यागतमिवालिङ्ग्य प्रेमविवलचेतसः पापे प्रलम्बे निहते देवा परमनिर्वृताः अभ्यवर्षनं वनं माल्ये सशंसो साधु साध्विति ते श्रीमद्भागवते महापुराणे पारभंसां सहितायां दशं स्कन्धे पूर्वार्धे प्रलम्बवधो नामाष्टादशोऽध्यायः